तयास्मानि विश्वदस्त्वम यक्ष्मजा परिभुज नमस्ते अस्माभिजानाददाय विष्णवे उभाभ्यामुददे नमो बाहुभ्याम् तव धन्मने फलिते धन्मनो हेतुरस्मान् वृणद् दुण विश्वतः नषधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्व राय महादेवाय त्र्यम्बकाय त्रिपुरान्धकायत्रिकालाग्निकालाय कालाग्निरुद्राय नेलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीवन्महादेवाय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 मानावधे पितरम् मोदमादरम् वृजा मानस्तनुवो रुद्ररीरुषः मानस्तोके तनजे मान आयुषि मानो गोषु मानो अश्वेश्वरीरुषः वीरान्मानो रुद्रभामितो विश्वम् तो नमसा विधेमते आराते ृतङ्गत्वसदम् युवानम् मृगन्न भेमौ गत्नमुग्राम् दृढाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निपन्त्रस्य हेतुर्वृणक्वेशस्य मुखवर्ध्यस्तनश्वमेध्वस्तो कायतनजाग मृडया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 यक्ष्वा महेशो मनसाय रुद्रन्नवर्देवमसुरन् नुमस्या अयम् मे हस्त भगवानयम् मे भगवत्तरः अयम् मे हे विश्वभेशतो यगम् शिवाभिमर्शनः एते सहस्रमगतं पाशामृत्य न्तमे तानि यज्ञस्य पायजा सर्वानवगजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा वोन्नम भगवते रुद्राय विष्णवे मृत्युर्मे भाहि प्राणानाम् ग्रन्थिरसिरद्रामाविश्वान्तगाः अहं कामश्च मे कामश्चमे सौमनसष्टमे भद्रञ्चमे श्रेजस्तमे वस्त्रस्तमे रसस्तमे भगस्तमे द्रविणञ्च मे चन्द्राच मे चन्द्राच मे क्षेमश्चमे त्रजश्च मे विश्वञ्चमे महस्तमे संविच मे ज्ञात्रञ्चमे श्रीरञ्च मे रजस्तम रदञ्च मे मृदञ्च मे शगनन्द मे सुखाच